श्री ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे द्व्यशीतितमः सर्गः हनुमन्नायकत्वे वानराणाम् रक्षसाम् च युद्धम् हनुमतः श्रीरामपार्श्वे निवर्तम् इन्द्रजिता त्रिकुम्भिराम् उपेत्य यज्ञस्य अनुष्ठानम् च श्रुत्वा तो भीमनिर्हणम् चक्राश निशमस्वनम् वीक्षमाणा दिश सर्वा दुद्रुवूर्वा नराभृशम् तादुवाच ततः सर्वान् वदनान् दीनान् त्रस्तान् विद्रवतः कस्माद् विषण्णवदना विद्रवध्वं प्लवङ्गमः त्यक्तयुद्ध समुत्साह शूरत्वम् कनुवोद्गतम् पृष्ठतो नो व्रजध्वं माम् अग्रतो यान्तमाहवे शूरैरभीज नोपेते अयुक्तम् हि निवर्तितुम् एवम् उक्ता सुसङ्क्रुद्धा वायुपुत्रेण धीमता शैलशृङ्गान् द्रुमा चैव अपि पेतुश्च गर्जन्तु राक्षसान् वानरशभ परिवार्य हनुमन्तं अन्वयुश्च महाहवे सतये वा नरमुख्यस्तु हनुमान् सर्वतोवृतः हुताश न इवाचीष्मान् अधः चतुर्वाहिनीम् स्वराक्षसानाम् कथनम् चकार वृतो वा नरसैन्येन कालान्तकयमो का यमोपमः स तु शोकेन चावीष्टः कोपेन महता कपिः हनुमान् रावणिरथे महतीम् पातये शिरां तामापतन्तीं दृष्ट्वैव रथस्ता रथिना तदा विधेयाश्वसमायुक्त विदूरमपवाहितः तमिन्द्रजी तमप्राप्य रथस्थं सारथिम् विवेश धरणिं भीत्वा सा शिला व्यर्थमुद्यता पतितायां शिलायां तु व्यथिता रक्षसां च मुहुः निपतन्त्या च शिलया राक्षसा मथिता भृशम् तमभ्यधावन् चतसो न दन्तकान नौकसहे ते द्रुमाश्च महाकाय गिरिशृङ्गाणि चोद्यतः क्षिपन्तिन्द्रजितम् सङ्ख्ये वानराभीमविक्रमः वृक्षशैलमहावर्षम् विसृजन्तः प्लवङ्गमः चत्रूणाम् कदनम् चक्रु नैदृश्च विविधेष्वनये वानरयितै महाभीमै घोररूपा निशाचरः विर्यादभियता वृक्षै व्यचेष्टन्तरणाक्षितो ससैन्यम् अभिवीक्षाथ वानरार्दितमिन्द्रजीत प्रगृहीतायुध क्रुद्ध पराणाभिमुखो ययो सोषरोगानवत्सुयन् स्वसैन्ये नाभिसंवृतः जघानकपिशार्दूलान् सुबहुन् दृढ विक्रमः शूलै रशनिभिः खड्गै पट्टिशये शूलमुद्गरै ते चाप्य नोचरान् तस्य वानर जघृराहवे सुस्कन्ध विचपैशैले शिलाभिश्च महाबलः हनुमान् कदनं चक्रे रक्षसाम् भीमकर्मणाम् तन्निवार्य परानेकम् अब्रवीतान् वनोकसः हनुमान् सन्निवर्तध्वम् नः साध्यमिदम् बलम् त्यक्त्वा प्राणान् विचेष्टन्तु राम प्रिय चिकित्सवः यन्निमित्तम् हि युध्यामो हतासा जनकात्मजा इममार्थम् हि विज्ञाप्य रामम् सुग्रीवमेव च तौ यत् प्रतिविधास्येते तत् करिष्यामहे वयम् इत्युक्त्वा वानरश्रेष्ठो वारयन् सर्ववानरान् शनै शनैरसन्त्रस्त सबलः सन्न्यवर्तत ततप्रेक्ष्य हनुमन्तम् व्रयन्तम् यत्र राघवे स होतुकामो दुष्टात्मा गतश्चैत्यम् निकुम्भिलाम् निकुम्भिलाम् अधिष्ठाय पावकम् जोवेन्द्रजी यज्ञ भूमां ततो गत्वा पावकस्ते न रक्षत पूयमान प्रज्ज्वाल होमशोणित भुक्तदा सि पि नद्धो ददृशे दर्पितः सन्ध्यागत अयुवार्य श्रुतिभ्रोग्नी समुत्थितः अथेन्द्रजित्राक्षसभूतयेतो जुहावहव्यम् विधिना विधानवि दृष्टा वितिष्ठन्त च राक्षसास्ते महासमूहेषु नया नयज्ञा इत्याशे मद्वाल्मीकि रामायणे आदिकाव्ये युद्धकाण्डे ध्वशीति समस्त